श्रीहरे नमः अत एकविंशोऽध्यायः श्रीशुक उवाच एतावानेव भूवलयस्य सन्निवेश प्रमाणलक्षणतो व्याज्ञातः एतेन हि दिवो मण्डलमानं तद्वित उभति सन्ति यथा द्विदळयोर्निष्पादीनां ते अन्तरेणन्तरिषं तदोभयसन्निधं यन्मध्यगतो भगवान्स्तपधां पतिस्तपन आ ते पनत्रिलोकीं प्रतपत्यवभास यत्यात्मभासा स एष बुधगयन दक्षिणायन वैशुवतसंज्ञाभिर्मान्द्य सैग्र्यर्थामानाभिर्गतिभिः आरोहणावरोहण समानस्थानेषु यथा सवनमभि पद्यमानो मगरादिषु राशिषो अहोरार्त्राणि दीर्घ ह्रस्वसमानानि विदन्ते यथा मेषतुलयोर्वर्तते तथा होरार्त्राणि समानानि भवन्ति यथा वृषभादिषु पञ्चसु च चा। राशिषु चरति तथा अहानि एव वर्धन्ते मासि मासि एकैका घटिका रात्रिषु यथा वृश्चिकादिषु पञ्चसु वर्तते तथाहोरात्राणि विपर्ययाणि भवन्ति यावद् दक्षिणायनमहानि वर्धन्ते यावदुदगयनं रात्र्यः एवं नवकोटय एकपञ्चषल्लषाणि योजनानां मानसोत्तर किरिपरिवर्तनस्योपदिशन्ति तस्मिन् ऐन्द्रीं पुरीं पूर्वस्मान् मेरोर्देवधानीं नाम दक्षिणतो यां यां संयमनीं नाम पश्चाद्वारुणीं निं लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम तासुधयमध्याह्न अस्तमयं भूतानां प्रवृत्तिं निवृत्तिनिमित्तानि समयविशेषेण मे तत्रत्यानां दिवसमद्यङ् गत एव सदा आदित्यस्तपति सव्येनाचलं दक्षिणेन करोति यत्रो देति तस्य कसमानसूत्रनिपाते निं लोचति षन्धेना वितपतितस्य हैष समानसूत्रनिपाते प्रस्वापयति तत्र गतं न पश्यन्ति एतं समनुपश्येरन् यदा प्रचलते पञ्चदशघटिकाभिर्यां या सभात कोटिद्वयं सार्धद्वादशलक्षाणि साधिकानि च बुपयाधी एवं ततो वारुणीं सौम्याम् ऐन्द्रीं च पुनस्त धान्ये च ग्रहासोमाधयो नक्षत्रे सखज्योतिश्चक्रे समभ्युद्यन्ति सखवाणीं लोचन्ति एवं मुहूर्तेन चतुस्त्रितं षल्लक्षयो जनान् अष्टसदाधिकानि सौरो रथस्त्रियमयोऽसौ चतश्रुषु परिवर्तते पुरीक्षू यस्यैकं चक्रं द्वादशारं षण्णाभिसंवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर्मोर्धनि कृतो मानसोत्तरे कृतेतरभागो यत्र प्रोतं रविरथचक्रं तैलयन्त्रचक्रवद्भ्रमन् मानसोत्तरगिरौ परिभ्रमतिं तस्मिन्नक्षे कृतभूलो द्वितीयोक्षस्तुर्यमानेन संवितस्तैलयत्राक्षभध्रुवे कृतोपरिभागः रथनीढस्तु षट्त्रिं संलक्षयो जनायतस्तत्तुरीयभाग विशालस्तावान् रविरतयुगो यत्र हयाश्चन्द्रो नामानः सब्दारुणयोजिता वहन्ती देवमादित्यं पुरस्तात् सवितुरऋण पश्चाश्च सौत्ये कर्मणे किलास्ते तथा बालकिल्या ऋषयोऽङ्गुष्ठ पर्वमात्रा षष्टिसहस्राणि पुरतः सूर्यं सूक्तवाकाय नियोक्ता संस्तुवन्ति तथा च ऋरुषयो गन्धर्वाप्सरसो नागाक्रमण्यो याधुधाना देवा इति एकैकशोघणा सप्तचतुर्दशमासि मासि भगवन्तं सूर्यमात्मानं नानानामानं पृथग् नानानामान कर्मभिर्द्वन्द्वस उपासते लक्षोत्तरं सार्धनवकोटियोजन परिमण्डलम्भुवलयस्य क्षणेन सघव्युत्युत्तरं द्विसहस्र योजनानि स भुङ्क्ते इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्ते ज्योतिश्चक्रसूर्यरथमण्डलवर्णनम् एकोनविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमघराजकी जय